अथ श्रीचिदम्बरेश स्तुतिः कल्याणमूर्तिम् कनकाद्रिचापम् कान्तासमाक्रान्तनिजार्देवम् कालान्तकम् कावलिपुं पुरारिम् चिदम्बरेशम् हृदि भावयामि विश्वाधिकम् विष्णुमुखैरुपास्यम् त्रिलोचनं चन्द्रकलावतं सम् उमापतिं पापहरं प्रशान्तम् चिदम्बरेशं कृति भावयामि विश्वेश्वरं नित्यमनन्तरूपम् वारेन्दुचूडं सुरवन्द्यपादम् पतिं पशूनां कृति चिदम्बरेशम् हृदि भावयामि विशालनेत्रम् परिपूर्णगात्रम् गौरीकलत्रम् सुरवैरिशत्रुम् कुबेरमित्रम् जगदेकपात्रम् चिदम्बरेशम् हृदि भावयामि कैलासवासम् जगदामधीशम् मुरारिमित्रम् पुरुहूतवन्द्यम् महेशमूर्तिम् सुरसेव्यमानम् चिलम्बरेशम् हृदि भावयामि कर्पूरगात्रम् कमणीयपात्रम् कंसारिमित्रम् कमलेन्दुवक्त्रम् कन्दर्पशत्रुम् कमलेशमित्रम् चिदम्बरेशं हृदि भावयामि त्वमेव बन्धुस्त्वयि भाति सर्वम् अनेकरूपं परमन्त्रमेकम् पिनाकपाणिं भयनाश हेतुम् चिदम्बरेशं हृदि भावयामि कृपा सुमुखं त्रिनेत्रम् जटाधरं पार्वति सदाशिवं रुद्रमनन्तरूपम् चिदम्बरेशं हृदि